नारदपुराणं पूर्वार्थम् अध्यायं सवन्टि सनत्कुमार उवाच अथ वक्ष्ये महाविष्णो मन्त्रान् लोकेषु दुर्लभान् यान् प्राप्य मानवास्तूर्णं प्राप्नुवन्ति निजेप्सितम् येषामुच्चारणेन द संखः पठीयते ब्रह्मादयोऽपि या ज्ञात्वा समर्थास्योर्जगत्कृतौ तारहृत्पूर्वकं खेन्दं नारायणपदं भवेद अष्टाक्षरो मनुश्चास्य साध्यो नारायणो मुनिः छन्दप्रोक्तं च गायत्री विष्णुख्ययः ॐ बीजं यं च तथाशक्तिर्विनियोगोऽखिलाप्तये क्रुद्धोल्काय हृदाख्यादं महोल्काय शिरस्मृदं वीरोल्काय शिखाप्रोक्ताद्युल्काय कवचं मदम् महोल्कायेदि चास्रं स्यादिद्धम् पञ्चाङ्गकल्पना पुनषडङ्गमन्त्रोद्धैषड्वर्णैश्च समाचरेद अवशिष्टौ न्यसेत्कुक्षि पृष्ठयोर्मन्त्रवर्णकौ सुदर्शनस्य मन्त्रेण कुर्याद्दिग्बन्धनं ततः तारोन्नमश्च दुर्घ्यन्तं सुदर्शनपदं वदेद अस्त्राय खडिति प्रोक्तो मन्द्रोद्वादशवर्णवान् दशावृत्तिमयन्यासं वक्ष्ये विभूदि पञ्चरं मूलार्णान् स्वतनौन्यसेदाधारे हृदये मुखे दो मूलेषु प्रथमृत्ति बलिना बहुदी कुचपृष्ठु तत्परा मूर्ध्य नेत्रश्रवण्राण तृतीय का दौपाद्यंगुषु वेदृत्ता च विसेद धातुप्राणेषु हृदये विन्यसे तदनं तरं शिरोनेत्रास्य हृत् कुक्षिसोरुजं कापदद्वये ये कैकसो न्यसेद्वर्णान्मन्द्रस्य न्यसे धृद्धं धृतं सोरूपस्तेष्वर्णान् वेदमिदात्मनोः चक्रस्यं खगदाम्भोजपदेषु स्वस्वमुद्रया शशांश्च न्यासवर्योऽयं विभूति पञ्चराभिधः न्यस्येन्मूलार्णमेकैकं सचन्द्रं तारसंफुटम् अथवा वै नमों तेन्नसेदित्यपरे जगुः तत्त्वन्यासं तद कुर्याद्भिष्णो भावप्रसिद्धये अष्टार्णोऽष्टप्रकृत्यात्मा गदितः पूर्वः सूरिभिः पृथिव्यादीनि भूतानि तदोहं करमेव च महांश्च प्रकृतिश्चैवेत्यष्टौ प्रकृतयो मदाः पादे लिङ्गे कृतिमुखे मूर्ध्नि वक्षसि हृत्स्थले सर्वाङ्गे व्यापकं कुर्यादेकेन साधकोत्तमः मन्त्रार्णहृत्परायाद्यमात्मने हृदयान्तिमं तत्तन्नाम समुच्चार्य न्यस्ये तत्तस्ते बुधः अयं दत्वाभितो न्यास सर्वन्यासोत्तमोत्तमः मूर्तिर्नस्ये द्वादश वै द्वादशादित्य संयुताः द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः अष्टार्णोऽयमनुश्चाष्टप्रकृत्यात्मा समीरितः तासामात्मचतुष्कस्य योगादर्काक्षरो भवेद् ललाड कुक्षिहृत् खण्डदक्षपार्श्वांसकेषु च गले च वामपार्श्वांसकलपृष्ठेश्वनन्तरं कगुव्यभिन्यस्यन्मन्त्री मूर्तीर्द्वादशवैक्रमाद धात्रादुकशवं न्यस्यार्म्ण नारायणं पुनः मित्रेण ना माधवं न्यस्य गोविन्दं वरुणेन च विष्णुं चैवां शुनायुक्तं भगेन मधुसूदनं न्यस्येद्विवस्वदयुक्तं त्रिविक्रममतः परं वामनं च तथाद्रणपूष्णा श्रीधरमेव च ऋषिकेशं न्यसेत् पश्चात्पर्जन्येन समन्वितं त्वष्ट्रायुधं पद्मनाभं दामोदरं च विष्णुना द्वादसर्णं ततो मन्त्रं समस्ते शिरसिन्यसेद् व्यापकं विन्यसेत्पश्च किरीडमनुना सुधीः ध्रुवकिरीडकेयूरहारान्ते मकरेति च कुन्दलान्दे चक्रशङ्ख गदान्तेम्भोजहस्तदः पिताम्बरान्दे श्रीवत्सां पितवक्षस्थलेति च श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परं वदे दीप्तिकरा यान्ति दी सहस्रादित्यतेजसे नमोन्दो बाण शंवर्ह्नैः किरीडमनुरीरिदह एवन्यासविधिं कृत्वा ध्यायेन्नरायणं विभुम् उद्यत्कोट्यर्कसदृशं शङ्खं चक्रं गदाम्भुजम् दध तं च करैर्भूमिश्रीभ्यां पार्श्वद्वयं चितम् नमोन्दो बाणषङ्वर्णाय किरीडमनुरीरितः एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् उद्यकोट्यर्कसदृशम् शङ्खं चक्रं गदाम्बुजं दधतं चकरैर्भूमिश्रीभ्यां पार्श्वद्वयाञ्चितं श्रीवत्सवक्षसंभ्राजत्कौस्तुभामुक्तकन्धरं हारकेयूरवलयां गदं पीताम्बरं स्मरेद वर्णलक्ष् ं जपेन्मन्त्रं विधिवन् नियदेन्द्रियः प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद्ध्रुवं लक्षद्वयजपेनाथ मन्त्रशुद्धिमवाप्नुयाद लक्षत्रयेण जपेन स्वर्लोकमधिगच्छति विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः तथा च निर्मलं ज्ञानं पञ्चलक्षजपाद् भवेद् लक्षषष्ठेन चाप्नोति मं त्री विष्णौ स्थिरामदिम् सप्तलक्षजपान् मन्त्री विष्णो सारूप्यमाप्नुयाद अष्टलक्षं जपेन्मन्त्री निर्वाणमधिगच्छति एवं जप्त्वा तदप्राज्ञो दशांशं सरसिरुहैः मधुराखै प्रजुहुयात् संस्कृतेहव्यवहने मण्डूकात् परतत्वां तं पीठे सम्पूज्य यत्नदः विमलोत्कर्षिणीज्ञानक्रियायोगा ततः परा प्रह्वीसत्या तथे शाननुग्रह नवमि ना माता तारो न मनो भगवते विष्णवे सर्वभूततः आत्मने वासुदेवाय सर्वात्मेधि पदं वदेद संयोगयोगपद्मां देवपीठाय हृदयान्तिमं षड्विंश दक्षरक्पीठमन्द्रोनेनासनं दिशेद मूर्तिं सङ्कल्प्य मूलेन तस्यामावाह्य पूजयेत् दले वासुदेवं सङ्घर्षणं तथा प्रद्युम्नमनिरुद्धं च शक्ति कोणेश्वर्चयेत् शान्तिं श्रियं सरस्वत्यारधिं सम्पूजयेत्क्रमाद हेमपीतमालेन्द्रनीलाभाः पीतवाससः चतुर्भुजा शङ्खचक्र गदाम्भको जथरा इमे सिधकाञ्चन गोदुग्धूर्वावर्णाश्च शक्तयः दलाग्रेषु चक्रशङ्खगदापङ्कजकौस्तुभान् पूज्येन्मुसलं शङ्खम् यद्धा क्रमाद वनमालां यद्धाक्रमाद् रक्ताजपीतकनकश्याम कृष्णासितार्जुनान् कुङ्कुमाभं समभ्यर्च्येद्बहिरग्रे खगेश्वरं पार्श्वयोपूजयेत्पश्चाङ्ख पद्मनिधिक्रमादमुक्ता माणिक्यशकास्य पश्चिमे ध्वजमर्पयेत् रक्तं विघ्नं तथाग्नेये श्याममार्यं च राक्षसे दुर्गां श्यामां वायुकोणे सेनान्यं पीदमैश्वर्ये लोके स न युधैर्युक्तान् बहिः सम्पूजयेत् सुधिः एव मावरणैर्युक्तं योर्चयेद् विष्णुमव्ययं भुक् द्वे ह सकलान् भोगानं दे विष्णुपदं व्रजेदक्षेत्रधान्यसुवर्णानां प्राप्तयेत् धारिणीं स्मरेदेवीं दूर्वादलस्यामां दधानां शालिं मञ्जरीं चिन्तयेद्भारतीं देवीं वीणापुस्तकधारिणीं दक्षिणे देवदेवस्य पूर्णचन्द्रनिभाननम् क्षीराब्धिफेन पुञ्जाभे वसानां भारत्या भारत्यासहितं यो वै ध्यायेद्वेवं परात्परं वेदवेदार्थतत्त्वज्ञो जायते सर्ववित्तमः नारसिंहमिवात्मानं देवं भैरवं शस्त्रं सं मन्द्र्यमन्त्रेण शबॄन्हत्वा निवर्तते नारसिंहेन बीजेन मन्त्रं संयोज्य साधकः शतमष्टोत्तरं जपत्वा शतमष्टोत्तरं जप्त्वा वामहस्ताभिमन्द्रिताः पुनः पुनरपि सिञ्चेत् सर्प दष्टोऽपि जीवति गारुडेन च संयोज्य पञ्चार्णेन जपेत्तदा निर्विशीकरणे ध्यायेद्विष्णुं गरुडवाहनम् अशोकफलके तार्क्ष्य मालिक्याशोकसंहतौ अशोकपुष्पैः सम्पूज्य भगवन्तं तदग्रदः जुहुयातानि पुष्पाणि त्रिसन्ध्यं सप्तपत्रकम् प्रत्यक्षो जायते पक्षी वरमिष्ठं प्रयच्छति गानपत्येन संयोज्य जपे महा महागणपतिं देवं प्रत्यक्षमिह पश्यदि वाणि बीजेन संयुक्तं षण्मासं यो जयेन्नरः महाकविवरो भूत्वा मोहयेत्सकलं जगद हुत्वा गुञ्ची सकलान्यर्थाकुलमितानि च दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः शनैश्वरदिने सम्यक् पृष्ट्वाश्वस्थं च पाणिना जप्त्वा युद्धे श्यपमृत्युं जयत्यसौ पञ्चविंशतिधा जप्त्वा नित्यं प्रादः पिबेज्जलं सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः कुम्भं संस्थाभ्य विधिवदाभुर्यशुधवारिणा जप्तायूतं तदस्तेनाभिषेकसर्वरोगनुद चन्द्रसूर्योपरागे दुह्युपोष्याष्टसहस्रकं स्पृष्ट्वा ब्राह्मी धृतं जत्वा पिबेत् मेधां कवित्वं वाक्सिद्धिं लभते नात्र संशयः द्युहूयादयुदं विल्वैर्महाधनपतिर्भवेद नारायणस्य मन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः आलय सर्वसिद्धीनां कथितस्तव नारद नारायणाय शब्दान्ते विद्महे पदमीरयेद वासुदेवपदं ङें दं धीमहीधि तदो वदेद तन्नो विष्णुप्रचोवर्णान् संवदे चोदयादिति येषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी तारो हृद् भगवान् ङेन्दो वासुदेवाय कीर्तिदः द्वादशार्णो महामन्द्रो भुक्तिमुक्तिप्रदायकः स्त्रीशूद्राणां विदारोऽयं सतारस्तु द्विजन्मनां प्रजापतिर्मुनिश्चास्य गायत्री छन्दरिदः देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्च हृद वेद समस्ते चंद्राक्षिवेदर्ना समांगकनमूर्धिभाशो राश्ये गले दोर दोहृदन कुक्षौ जानु द्वये पाद द्वये न्यासेत्क्रमान् मन्द्रवर्णान् सृष्टिन्यासो यमीरितः हृदादिमस्तकां तं दुःस्थितिन्यासं प्रचक्षते पादादारभ्यमूर्धानन्यासं संहारकं विदुः तत्त्वन्यासं तदः सर्वतन्द्रेषु गोपितं बीवं प्राणं तथा चित्तं हृत्पद्मं सूर्यमण्डलम् चन्द्राग्निमण्डले चैव वासुदेवं ततः परं सम्कर्षणं च प्रद्युम्नमनिरुद्धं ततः परं नारायणं चक्रमदस्तत्त्वानिद्वादशैवद मूलार्णहृत्परायाद्यमात्मने हृदयान्तिमं तत्त्वे नाम समुञ्चर्य न्यस्यन्मूर्धादिषु क्रमाद पूर्वोक्तं ध्यानमत्रापि भानुलक्षजपो मनोः तादृशां शं तिलैराज्य लोलितैर्भवनं चरेद पीठे पूर्वोदिदे संकल्प्यमूलतः मूलतः तस्यामावाह्यदेवेशं वासुदेवं प्रपूजयेद् अङ्गानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः शान्त्यादिशक्तयपूज्या प्राग्वद्दिषु विदिक्षु च तृतीयवर्णे पूज्या प्रोक्ता द्वादशमूर्तयः इन्द्राद्यानायुधैर्युक्तान् पूजये धरणी गृहे एव मा वरणैरिष्ट्वा पञ्चभिर्विष्णुमव्ययम् प्राप्नुयात्सकलानर्थानन्दे विष्णुपदे व्रजेद पुरुषोत्तमसंज्ञस्य विष्णोद्भेदचतुष्टयं त्रिलोक्यमोहनस्तेषां प्रथमः परिकीर्तिदः श्रीकरश्च हृषिकेश्च कृशाणश्चात्र चतुर्धकः तारककामोरमापश्च चान् घें तस्यात् पुरुषोत्तमः वर्मास्त्राण्यग्निप्रियान्दो मन्द्रो वन्यन्दु वर्णवान् ब्रह्मामुनिस्या गायत्री छन्दप्रोक्रोध देवता पुरुषोत्तमसंज्ञोत्र बीजशक्तिस्मरं धिरे भू चन्द्रैकरसाक्ष्यक्षिमन्द्रवर्णो विभागतः कृत्वा गानि तदोऽध्यायेद्विधिवत्पुरुषोत्तमं समुद्यदादित्यनिभं शङ्खचक्रगदाम्बुजैः लसत्करं पीदवस्त्रं स्मरेच्छ्रीपुरुषोत्तमम् महारत्नौखितफुरतोरणमण्डपे मौक्तिकौख शमदमविराजितविधानके नृत्यदेवाङ्कनां वृन्दक्वणात्किङ्गिणीनूपुरे लसन्माणिक्यविद्याम् दु दीप्तार्कायुध ते जसि वृन्तारकव्रातकिरीडाग्ररत्नाभिचर्चिते नवलक्षं जपेन्मन्द्रं ज्युहूयात् तत् दशांशदः उद्भुल्लैकमलैपीठे पूर्वोक्ते वैष्णवेर्चयेद एवमाराध्यदेवेशं प्राप्नोति महतीं श्रियम् पुत्रान् पौत्राण्यशकान्तिं भुक्तिं मुक्तिं च विन्दति उत्तिष्ठेऽधिपदं पश्चात् श्रीपराग्निप्रियान्तिमः अष्टार्णोऽस्य मुनिर्व्यासपङ्क्तिश्चन्द उदाहृतं श्रीकाराख्यो हरिप्रोक्तो देवदा सकलेष्टदः भेषयद्विदयं हृत्स्यात्रास यद्विदयं शिरः शिखा प्रमदयद्वं द्वं वर्मप्रध्वंस यद्वयम् अस्रं रक्षस्वयम् अस्रं रक्षद्वयं सर्वे हुमं ताः समुदीरिदाः मस्तकेनेत्रयो कण्ठहृदये नापि देशके ऊरू जङ्खां युग्मेषु मन्त्रवर्णान् क्रमान्यतस्येत् ततः पुरुषसूक्तोक्तमन्त्रैर्न्यासं समाचरेद् मुखे न्यस्येद्ब्राह्मणोऽस्य मुखमासीदिमं मनुं बाहु युक्मे तथा बाहुं राजन्य इति विन्यसेद् उरु तदस्य यद्वैष्य इम मुरुद्वये न्यसे न्यसेद न्यस्येत् पदद्वये मन्त्री पद्भ्यां शूद्रो अजायद चक्रं शङ्घं गदां पद्मं कराग्रेष्वधविन्यसेद एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितं पूर्वोक्तरूपिणं देवं श्रीकरं लोकमोहनं। ध्यात्वैवं पूजये दष्टलक्षं मं त्रीर्दशांशदः रक्ताम्भुजैः समिद्भिश्च विल्वक्षीरिद्रुमोद्भवैः पयोन्नैः सर्पिषाहुत्वा प्रत्येगं सुसमाहिदः अश्वग्धो दुम्बरप्लक्षवडाः क्षीरिद्रुमा स्मृदा पूजये द्वैष्णवे पीठे पूजयेद्वैष्णवेपीठे मूर्तिं सङ्कल्प्य मूलधः अङ्गावरणदिक्पालखेदिभिस्सखितं विभुं युद्धं सिद्धे मनौ मत्त्रीप्रयोगान् पूर्ववञ्चरेद कारो हृद्भगवान् हेन्दो वराहेदि तदः परम् रूपाय भूर्भुवः स्वस्याल्लोहितकामिका च ये भूपतित्वं च मे देहि ददापय शुचिप्रिया रामाग्निवर्णो मन्द्रोऽयं भार्गवोश्यमुनिर्मदः छन्दोनुष्ठुदेवतादिवराह समुदीरिदः येकदंष्ट्राय हृदयं व्योमूर्खाय ग शिरस्मृगं शिखा ते ज्योधिपदये विश्वरूपाय वर्म च महादंष्ट्राय शास्त्रं स्यात् पञ्चाङ्गमिति कल्पयेद् अथवा गिरिषट्सप्तवानैर्वसुभिरक्षरैः विभक्तैर्मन्त्रवर्यस्य पञ्चाङ्गानि प्रकल्पयेद तदौ ध्यायेदनेकार्कनिभमादिवराहकम् आं ह्रीं स्वर्णनिभं जानो रथो नाभेसिदप्रभं इष्टाभिधिगदाशङ्खचक्रशक्त्यसि खेटकान् दधतं च करैर्दं श्राग्रलसद्धरणिं स्मरेद एवं ज्ञात्वा जपे लक्षं दशांशं सरसीरुहैः मध्वकृतैर्जुहूयात्पीडे भूर्वोक्ते वैष्णवे यजेद मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजये द्विभुम् अङ्गावरणदिक्माल हेदियन्द्रप्रसिद्धये जपादेवावर्निद्याधनं धान्यं महीं श्रियं सिंहार्के सिदपक्षस्याष्टम्यां गव्येषु पञ्चसु शिलां शुद्धां विनिक्षिप्य पृष्ट्वा तामयुधं जपेद उदं मुखस्वदो मं त्री तां शिलां लिखनोद्भुवि भूतप्रेदाहि चौरादिकृतां बाधां निवारयेद प्रादभृगुदिने साद्य भूदलान् मृदमाहरेद दा। मं त्रितां मूलमन्त्रेण विभजेतां त्रुधापुनः चुल्यामेकं समालिप्याप्यपरं पाकभाजने गोदुग्धे परमालोढ्य शोधितां स्तं दुलान् क्षिभेद सम्यक् शुद्धे शुचिकेश्ये जपन्मन्त्रं प्रचेञ्चरुम् अवदार्य चरुं पश्चाद्वह्नौ देयं यथाविधि सम्भूज्य धूपदीपाध्यै पञ्चादाज्यप्लुदं चरुं जुहूयात्संस्कृते वह्नौ अष्टोत्तरशतं सुधीः एवं प्रजुहुयान्मन्त्री कविवारेषु सप्तसु विरोधो नश्यति क्षेत्रे शत्रुचौराद्युपद्रवाः भानुदयेऽप्यारवारे साध्यक्षेत्रान्मृदं पुनः आदाय पूर्वविधिना अविरापाद्यपूर्ववद जुहूयादेधि देवह्नौ पूर्वसङ्ख्याकमादराद एवं स सप्तारवारेषु जुहूयाक्षेत्रसिद्धये जुहूयाल्लक्षः सङ्ख्याकं गव्यैश्चैव स पायसैः अभीष्टभूम्याधिपत्यं नात्र संशयः उद्योपरिधं दिव्यम् सिदधंष्ट्राग्रभूधरं स्वर्णाभं पार्थिवेऽपि दे मण्डले सुसमासितः ध्यात्वाप्नोदिमहीं रम्यां वराहस्य प्रसादः वारुणे मण्डले द्वाराहं हिमसन्निभम् महोपद्रव शान्ति स्यात् साधकस्य न संशयः वस्यार्थं च सदा ध्यायेद्वाह्राभं वह्निमण्डे ध्यायेदेवं रिपुञ्चाडे कृष्णाभं वायुमण्डले ह्यमण्डलगदं स्वच्छं वाराहं सर्वसिद्धिदम् शत्रुभूदग्रहक्ष्वेडामयपीडादिशान्दये भगवर्धीशयुदं व्योम बिन्दुभूषितमस्तकम् एकाक्षरो वराहस्य मन्ध्रकल्पद्रुमोपरः पूजाद्याध्याधिकं सर्वमस्यां पूर्वोक् वञ्चरेद कर्णानिद्रा स्याद्वरहाय हृदन्तिमः ताराद्यो वसुवर्णो यं सर्वैश्वर्यप्रदायकः ब्रह्मामुनिः स्याद्गायत्री छन्दो वाराकसंज्ञकः देवश्चन्द्रेन्द्वब्धिनेत्रैः सवेणाङ्गक्रिया मदा ज्ञानपूजा प्रयोगादि प्राग्वदस्यापि कल्पयेद् प्रणवातौ सङ्गेन्दं च भगवदीतिपदं तदः धरणिद्विदयं पश्चाद्धरेर्द्वयमुदीरयेद् एकोनविंशत्यर्णाढ्यो मन्द्रो वाह्निप्रियान्तिमः वराहोस्य मुनिश्चन्दो गायत्री निवृदादिसा देवदाधरणिबीजं तारशक्तिर्वसुप्रिया रामवेदाग्नि बाणाक्षि नेत्रार्णैरङ्गप्रकल्पनं श्यामां चित्रविभूषाढ्यां पद्मस्तां तुङ्गसुस्तनीं नीलाम्बुजद्वयं शालिमञ्जरीं च शुक्रं करैः दधतीं चित्रवसानं धरां भगवतीं स्मरेद एवं ध्यात्वा जपेर्लक्षं दशांशं पायसेन दुः साज्येन जुहुयान्मन्त्री विष्णोपीठे समर्चयेद् मूर्तिं सङ्कल्प्य मूलेन तस्यां वसुमदीं यजेद् अङ्गानि पूर्वमाराध्य भूवह्नि जलमारुदान् दिक्पात्रेषु च सम्पूज्य कोणपत्रेषु तत्कलाः निवृत्तिश्च प्रतिष्ठा च विद्यानां तैश्च तत्कलाः इन्द्राद्यानपि पञ्चादीन् पूजये तदनन्तरम् येवं सिद्धे मनौ मन्त्री साधयेदिष्टमात्मनः धरणी प्रभजन्नेवं पशुरत्नाम्बरादिभिः गरम्यां वल्लभसस्यात्सुखी जीवेच्छदं स मां त्रैलोक्य मोहनो मन्त्रो जगन्नाथस्य कीर्त्यते तारककामोरमाबीजं हृदं ते पुरुषोत्तमः श्रीकण्ठप्रतिरूपान्ते लक्ष्मीदिजनिवासिज सकलान्ते जगत्पश्चात्क्षोभणेधि पदं वदेद सर्वस्त्री हृदयान्दे दु वितारणपदं वदेद् ततस्त्रीभुवनान्तं दु मदोन्मातकरोति च सुरासुरान्दे मनुजसुन्दरीजनवर्मदः मनांसि तापयद्वन्द्वं दीपयद्विदयं तदः ता शोषयद्विदयं पश्चान्मारयद्विदयं तदः स्तम्भ यद्विदयं भूयो मोहयद्विदयत्तदः द्राह्वयद्विदयं तावदाकर्षय युगं तदः समस्तपरमो येन सुभगेन जसंयुगं करसर्वपदं वदेद् कामप्रदादमुन्ब्रह्मा सें दुहनुयुगं तदः चक्रेण गदया पश्चात् कङ्गेन तदनन्तरं सर्वभाणैर्भेदियुगं पाशेनान्दे कडद्वयम् अङ्गुशेनेदि सम्प्रोच्य डयद्विदयं पुनः कुरु शब्दद्वयमधो किं तिष्ठसि पदं वदेद तावद्यावत्पदस्यान्ते समाहितमनन्तरं ततो मे सिद्धिरामास्य भवमन्दे जवर्मपडदन्तोऽयं महामन्द्रो द्विशतार्णः समीरिदः जैमिनिर्मुनिरस्योक्तश्चन्दश्चामिदमीरिदं देवदा जगद मोहे जगन्नाथप्रकीर्तिदः कामो बीजं भ्रमशक्तिर्विनियोगो किलाक्तये पुरुषोत्तमत्रिभुवनोन्मादकान्देऽग्निवर्म च हृदयं कीर्तिदं पश्चात् जगत् शोभनशब्दः लक्ष्मीदयितवर्मान्तशिरप्रोक्तं शिखा पुनः मन्मथोक्तमशब्दान्ते मङ्गजे पदमीरयेद कामदा यदि कुं प्रोच्यन्यस्येद्वमततः परं परमान्दे भृगुकर्णाभ्यां च सर्वपदं तदः सौभाग्यकरवर्मान्दे कवजं पारिकीर्तितं सुरासुरान्दे मनुजसुन्दरीति पदं वदेद् हृदयान्दे विदा पश्चाद्रण सर्वपदं वदेद् तदप्रकरणधर सर्वकामुपतत्पदम् हनयुग्मं च हृदयं बन्धनानि तदो वदेद आकर्षयद्वयं पश्चान्महाबलपदं तदः वर्मशास्त्रं समाख्यातं नेत्रं स्यात् तदनन्तरं वदे त्रिभुवनं पश्चात् चर सर्वजनेति च मनांसि हरयुग्मां ते धारयद्विदयं च मे वशमानय वर्मान्ते नेत्रमन्त्रसमीहितः षडङ्गमन्त्रास्ताराद्यास्तमोऽन्ताः प्रकीर्तिताः तारस्त्रैलोक्यशब्दान्ते मोहनेऽधिपदं वदेद् ऋषिकेशेदि संप्रोच्य प्रतिरूपादिशब्ददः मम नाथानन्तरम् सर्वीण हृदय मेरिएत आकर्षण पदागद्चृद अने व्यापक जगन्नाथ स्मरेत सुधी क्षीरा तो तटेरम्य सुरद्रुम्लता उद्य दर्पा भुजलाभम प्रसुनावली स्वधाम्नोज्ज्वालदिङ्मुखम् प्रसूनावलिसौरभ्य माद्यन्मधुपरारवं दिव्यवादोञ्चलत्कञ्च परागोद्धुलिताम्बरं स्वर्वबुधो गीत माधुर्याभिराम चिन्तयेध्वनम् तदन्तर्मणि सम्पत्तिस्फुरस्तोरणमण्डपे विलत्सन्मौक्तिकोद्दामदाम राजद्वितानगे मणिवेद्यादिवियत्किरीडाग्रसमर्चिते दिव्यसिंहासने विप्रसमासीनं स्मरे द्विभुं शङ्खपाश्येषु चापानि मुसलं नन्दकं गदाम् अङ्गुशं दधदं दोर्भिसृष्टे कमलयोरसि पश्यत्यं गस्थ यां भोजश्रिया प्रजा ध्यात्वैवं प्रजपेल्लक्षचतुष्टं तद् दशांशदः पुण्डेऽर्धचन्द्रे पद्मैर्वाजादिपुष्पैश्च होमयेद् यागभूमिं तथात्मानं यागोपकरणं तथा पूजयिष्यन् जगन्नाथं गायत्र्या प्रोक्षयेद्बुधः त्रैलोक्यमोहनायान्दे व्युत्महे पदमीरयेद स्मराय धीमहि इत्युक्त्वा तन्नो विष्णुप्रचोदयात् गायत्र्येषा समाख्यादा सर्वशुद्धिकरीपरा कल्पये दासनं पीडे पूर्वोक्ते वैष्णवे सुधीः पक्षिराजाय ठद्वन्द्वं पीडमन्त्रोयमेरिदः मूर्तिं सङ्कल्पमूलेन तस्या मावाकये ददः व्यापकन्यासमन्त्रेण तदसम्पूज्य भक्तिदः श्रीवत्सहृदयं तेन श्रीवत्सं स्तनयो यजेद कौस्तुभाय तेन यजेद्वक्षसि कौस्तुभं पूजयेद्वनमालायै हृदन्तेन वले च तां कर्णिकायां तदो भ्यार्चये भ्यर्चये द्विधिवञ्चाङ्गदेवताः दलेषु पूजयेत् पश्चात् लक्ष्म्याद्यावृतचामराः बन्धुकुसुमाभासाः मुक्ता हारलसत्कुजाः लक्ष्मी लक्ष्मीसरस्वती चैव दृद्धि ब्रीदिस्ततः परं कान्तिः शान्तिस्तुष्टिपुष्टिबीजाद्याख्येन मोऽकाः भृगुक्क्राश्चन्द्राढ्यो देव्या बीजमुदाहृदं ह्रस्वत्रयक्लीब सर्वरहितस्वरसंयुतं देव्या बीजं प्रमादासमादौ दलाग्रेषु यजेच्छङ्गं शार्गं चक्रमसिं गदम् अङ्गुशं मुसलं पाशं स्वमुद्रामनुभिःपृथकमहाचलचरा यान्दे वर्मास्त्रं वह्निवल्लभा पाञ्चजन्याप्रधाराध्यो नमोऽधः शङ्खपूजने शार्ङ्गाय स श यान्दे वह्निवल्लभा शार्गा शार्गाय हृदयं मन्द्रो महाद्य सार्गपूजने सुदर्शनमहाधेदु चक्रराजपदं वदेद हययुग्मं सर्व दुष्टभयं मन्दे कुरुद्वयं चिन्धिद्वयं ततः पश्चाद्विदारय mm. युगं ततः परमन्त्रान् ग्रस्द्वन्द्वम् भक्ष यद्विदयं पुनः भूकानित्राशयद्वन्द्वं वर्म फड्वाग्निसुन्दरी सुदर्शनाय हृदयं प्रोक्तश्चक्रार्चने मनुः समीरयेद कुम्फट् स्वाहा महाकौमोदकीत्यन्दे वदेञ्चैव महाबले प्रसीद सर्वासुरान्दके पश्चात्प्रसीदयुगलेधिजवर्मास्त्रवग्नि जायान्तकौमोदकि हृक्षति महा कौमोदक्यर्चने कौमो कौमो प्रोक्तो मन्त्रसर्वार्थसाधकः महाङ्कुशपदात् युग्मं हुं फड्वसुप्रिया अङ्कुशाय नमः प्रोक्तो मन्द्रग्रौवाकुशर्चने संवर्तक महान् देधुमुसलेधिपदं वदेध योध यद्विदयं वर्म फटं दे वह्निसुन्दरी मुसलाय नमः प्रोक्तो मन्द्रो सुसलपूजने महापाशहदाद कडयमाकर्षयद्वयं हुम्फे स्वाहा च पाषाय नमः पाशार्चने मनुहु मनुः ताराध्यामनवो ह्येदेत्तदश्चक्रादिकान्यजेद वज्राद्यानभि सम्बूज्य सर्वसिद्धीश्वरोऽभवद मासमात्रं तु कुसुमयि पूजयित्वा हयारिजैः कुमुदैर्वा प्रजुभूयादष्टोत्तरसहस्रतं मासमात्रेण वस्याुस्तस्य सर्वे नृगोत्तमाः यस्य नामयुधं मन्त्रं जभेदयुधसंज्ञया स भवेद्दासवत् सद्यो मन्द्रस्यास्य प्रभावतः बहुना किमिकोक्तेन मनुनानेन साधकः साधयेत् सकलान् कामान् विष्णुदुल्यो न संशयः इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे सप्ततितमोऽध्यायः ओ